ृदभद्रवक्रन् सीदन्तु गोष्ठेरणजन्त्वस्मे प्रजावती पुरुप इह स्युः इन्द्राय पूर्वीरुषसो दुहानाः इन्द्रो यज्वने प्रणते च शिक्षति उपेर्ददाति न भोजो भोजो रगिमिदस्य वर्धजने अभिन्ने खिल्ले निदधाति देवयुम् नता नशन्ति न दभाति तस्करः नैना अभित्रोऽव्यथिरा दधर्षति देवागिश्चजाभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह नता ता अर्वा रेणुककाटो अश्नुते न सग्निस्कृतक्रमुपजिता अभि उरुगाजमभजन्तस्य अनु गावो मर्त्यस्य यज्वनः गावो भगो गाव इन्द्रो मे अच्छात् सोमस्य प्रथमस्य भक्षः इमा या गावः स जना स इन्द्रः इच्छामी धृदा मदसा चिदिन्द्रम् योजङ्गावो मे दगथा कृशञ्चित् अश्लीलञ्चित् कृणुथ सुप्रतीकम् भद्रवाचः बृहद् वो सभासु प्रजावती सोजवसगम् रिषन्तीहि शुद्धा अपप्रपाणे पिबन्तीः मा वस्तेन ईश तवाघशगम् सह परिबोहेति रुद्रस्य वृञ्ज्यात् उपेदमुपपर्चनम् आसु गोषोपपृच्यताम् उपर्षभस्य रेतसी उपेन्द्रतपवीर्ये ॐ शान्तिश्चान्तिश्चान्तिः